हरि ओम् श्रीसीतारामचन्द्रभ्यां नमः अथ श्री, श्री अध्यात्मरामायणे अरण्यकाण्डे तृतीय स्वर्ग श्रीमहादेव उवाच अथ रामः सुदीक्ष्णेन जानक्यलक्ष्मणेन च अगस्तस्य निजस्थानं मध्याह्ने समपद्यत तेन सम्पूजित सम्यक भूत्वा भूमूलफलादिकम् परेद्युः प्रातरुत्थाय जग्मुत्सेकस्य मण्डलम् सर्वर्तु फलपुष्पाढ्यं नानाम् नृगगणैर्युतम् पक्षिसङ्घै नादितं नन्दनोपमम् ब्रह्मर्षिभिः देवषिभिः सेवितं मुनिमन्दिरैः सर्वतोऽलङ्कृतं साक्षात् ब्रह्मलोकम् इवापरं बहिरेव आश्रमस्याथ स्थित्वा रामो ब्रवीन्मुनिं सुतीक्ष्णगच्छीघ्रम् आगतं मां निवेदय अगत्यम् मुनिवरवर्याय सीतया लक्ष्मणेन च महाप्रसाद इत्युक्त्वा सुतीक्ष्ण प्रयो गुरो आश्रमं तरया तत्त्वे कृषिसङ्घ उपविष्टम् रामभक्त विशेषेण समायुतं व्याख्यात रामन्त्रार्थं शिष्येभ्यश्चातिभक्तितः दृष्टागत्य श्रेष्ठम् सुक्ष्णे प्रयो मुनः दण्डवत् प्रणिपत्या है, है।, है। विनयावनतसूरि रामो दाशरथिर्ब्रह्मन् सीतया लक्ष्मणेन च आगतो दर्शनार्थं बहि तिष्ठति साञ्जलिः अगत्योवाच शीघ्रं मानय भज्रं ते रामं मा तन्मेव ध्यायमानोऽहम् काञ्चमाणोऽत्र संस्थितः इत्युक्त्वाशयमुत्थाय मुनिभिः सहितो भक्त्या गत्वा रामम् अथ ब्रवीत् अगच्छ दृष्ट्यातिज्य समागमः प्रियातिथिर्मम प्राप्तो अस्य धे सफलं दिनं रामोऽपि मुनिमायान्तम् दृष्ट्वा च समाकुलः सीतया लक्ष्मणेनापि दण्डवतितो भुवि द्रुम <coughs> धृतमुत्थाप्य मुनिराक् रामम् आलिङ्ग्य भक्तितः तद्गात्र पश्च जाह्लाद स्रवन्दे त्रय गृहीत्वा करमेकेन करेण रघुनन्दनम् जगन्त्वाश्रमम् रुटु मनसा मुनिपुङ्गवहे सुखोपविष्टम् सम्पूज्य पूजय बहुवित्तरम् भोजयित्वा यथा न्यायम् भोजयैवन्यैरनेकथा सुखोपविष्टमेकान्ते रामं शशिनि भननम् कृताञ्जली वाचेदम् अगस्त्यो भगवान् ऋषि श्रद्धागमनमेवाहिं प्रतीक्षन् समवस्थितः यदा क्षीर समुद्रान्ते ब्रह्मणा प्रार्थितः पुरा भूमेर्भारात्यर्थं रावणस्य वधाय च तदा दि दर्शनाकाङ्क्षे तव रामः तपचरन् वसामि मुनिमुभीतार्थम् त्वमेव परिचिन्तयन् सृष्टिः प्रागे करिवासीत् निर्विकल्पोनुपाधिकः तदाश्रय त्वद्विषया माया ते शक्तिरुच्यते तमेव निर्गुणं शक्ति अवृणोति यदा तदा अव्याकृतमिति प्राहुः वेदान्तपरिनिश्चिताः मूलप्रकृति इत्येके प्राहुर्मायेति केचन अविद्या संस्कृतिर्बन्ध इत्यादि बहुरोच्यते त्वया संशोभ्यमाणा स मत्तत्सम्प्रसूयते मत्तत्त्वादहङ्कार त्वया संशोदितादभूत् अहङ्कारो मत्तत्त्वे संवृत त्रिविधो भवेत् सात्विको राजसश्चैव तामसश्चेति भन्यते तामसात् सूक्ष्मतन्मात्राणि आसन् भूतान्यतः स्थूलानि क्रमशोरामः क्रमोत्तर गुणानि है राजसान्द्रियाण्येव सात्विक देवतामर चेभ्यो भवत् सूत्ररूपं लिङ्गं सर्वगतं वहत् ततो विराटमुत्पन्न तूलाद्भूतगतम्बकात् विराज पुरुषात् सर्वं जगत् सावरजङ्गमं देव तिर्यङ् मनुष्या कालकर्म क्रमेण तु तमृजो गुणतो ब्रह्म जगतः सत्वा चत्वारि विष्णुत्वमेवास्य पालक सद्भिरुच्यते लिये रुद्रसमेवास्य तन्माय गुणभेदतः चुक्ताख्या वृत्तयो बुद्धिजैर्गुणैः तासां वृत्तयो राम त्वं साक्षी चिन्मयो व्ययः कृते लीलां यदा कर्तुम् इह से रघुनन्दनः अंगी मायां तम् तदा वै गुणवान्व राम माया द्विधा भाति विद्या विद्येति ते सदा प्रवृत्ति मार्गनिरता अविद्या वशवर्तिनः निवृत्ति मार्गनिरता वेदान्तार्थः विचारकः तद्भक्ति निरताय च सैवे विद्या मया स्मृता अविद्यावशिगायेतु नित्यं संसारिणश्च ते विद्याभ्यास रता ये तु नित्यमुक्ता स वै लोके तद्भक्तिनिरताय तन्मन्त्रपास विद्या प्रादुर्भवेत् तेषां कदाचन अत स्वद्भक्तिसम्पन्ना क्ता एव न संशयै तद्भक्त्यं मुतैनाम् मोक्षस्वप्नेऽपि नो भवेत् किं राम बहु नोक्तेन साधं किञ्चित् ब्रुवीमिति साधुसङ्गतिरेवात्र मोक्ष हेतुर्गाहृताय साधवे समचित्ताय निग्रहा विगतैषणा तासा निवृत्ताय केलकामनः इच्छ प्राप्तिविपत्योश्च समसङ्गविवर्जितः सन्न्यस्ताखिल कर्माण सर्वदा ब्रह्म तत्पराः यमादिगुणसम्पन्ना सन्तुष्टा येन केनचित् तत्सङ्गमो भवेद्यर्हि त्वत्कथाश्रवणैरपि समुदेते ततो भक्ति श्रीरामसनातने तद्भक्तोपपन्नायाम् विज्ञानं विफलं स्फुटम् उदेति मुक्तिमार्गोऽयम् अद्य चतुर सेवितः तस्माद् राघव तद्भक्ति प्रीमे प्रेम लक्ष्मणा स भूया धरे सङ्ग तद्भक्ते सुविशेषतः अद्य मे सफलं जन्म भवत्सन्दर्शनाद्भूत् अद्य मे कृतवत् सर्वे बभूव सफल प्रभु दीर्घकालं मया तप्तम् अनन्यम् तपः तस्य तपसोरम् फलं तव यदर्चनम् सदा मे सीतया साधम् हृदये स राघवे गच्छतः तिष्ठतोऽपि सदा त्वे इति स्तुत्वा रमानाथम् अगस्त्यो मनिषत्तम दरो चापम् रामार्थे स्थापितं पुराय अक्षय्यौ बाणतूणेरौ खड्गोरत्न विभूषितः जै राघव भूवर भूतं राक्षसमण्डलम् यदम् अवतीर्णोऽसि माय मनुजाकृतिः इतो यो जनयुग्मे तु पुण्यकानन मण्डितः अस्ति पंचवटी नाम्ना अश्रुमो गौतमेतते जेतव्य तत्र ते काल केशोर गुरुपुर्वह तत्रैव बहु कार्याणि देवानां कुरु सप्पथे कृत्वा सदा गच्छ सुभाषितम्ब स्तोत्रं चत्वार्थसमन्वितम् विभो मुनिं समाभाष्यमुदान्वितो प्रदर्शितं मार्गमशे च विधरि इति श्रीमादध्यात्मनामायणे उमामे सोमवारे अन्नकाण्डे तृतीय सर्ग श्रीसीतारामचन्द्रार्पणमस्तु